इयम् आकाशवाणी सम्प्रति वार्ता श्रताम् प्रवाचक पुरूषोत्तम शर्मा आदौ मुख्यवार्ता भारतेन वैश्विकार्थिक कार्यबलस्य पाकिस्तानं विरुध्य स्वीकृतो निर्णय समादृत जम्मूकश्मीरस्य आरक्षिमहानिदेशक आतंकिनां कुटुम्बिन अध्यर्थिता यत् तज बालकान् हिंसाचरणमपहाय गृहं प्रत्यागन्तुं निर्दिशन्त् अपि च अद्यारभ्य फिफा विश्व चषकपादकन्द्कस्पर्धायां प्रप्राग्पान्त्यचक्रीया स्पर्धा प्रारप्स्यन्त जम्मूकश्मीरस्य आरक्षिमहानिदेशकी वैद्यते अद आतकवादीनाटम अध्यथिता ये निजका हिंसाचरण गृह प्रत्यागंत निर्देशंत एक ट्वीट सन्देश तेक्त ये मुख्यधारायागंतमीछ आरक्षिण तहाय्य क्योंकि तेनोक्त यकाल मृत्यु दुखपूर्णो प्रधानमंत्री नरेन्द्र मोदी अदय द्वीप सम्र विसक्षत आधप्त नित्यायोगेन योग्र विस त्ख्याधारिकक संरचना योजना अंकीया संजन हरितोर्जा अवकर प्रबंधन मत्स्य संवर्धन पर्यटन संबद्ध योजना विषय रूपरेखा प्रदर्शिता गतवर्षे जून प्रतिपदायां विकासाय केन्द्रेण षड्विंशति द्वीपानां द्वीपविकासाभिकरणं स्थापितमासीत केन्द्र स्वह नवदिल्ल्यां वस्तुसेवाकर प्रवर्तनस्य प्रथमवर्षपूर्ति आयोजयिष्यति स्वह मध्यरात्रौ संसद मुख्यसभागारे समारोह समायोक्ष्यते भारतेन वैश्विकार्थिक कार्यबलस्य पाकिस्तानं विरुध्य स्वीकृतो निर्णय समादृत विदेशमन्त्रालयस्य वक्तव्य निगदितं यत् आतंकिग्ल्म्य वित्तपोषणं अवरोद्धं पाकिस्तानेन उद्घोषणा विहितास्ति परं वास्तविकस्थिति विपरीता वर्तत वक्तव्य अप्रतमस्ति यत् जमात उद दावा प्रभृतय आतंकिग्ल्मा हाफिज सईद सदृशा आतंकिनश्च पाकिस्तान सक्रिया वर्तन्त आतंकवादिनां नियन्त्रणाय पाकिस्तान निजप्रतिबद्धताया पालनं नैव क्रियता प्रिय श्रोतार आकाशवाण्या संस्कृतवार्ता प्रसारणस्य गतसायं चतुश्चत्वारिशत् अद्य प्रात अस्माभि पञ्चचत्वारिंशत् वर्षीया वार्ता समारब्धा अवधेयमस्ति यत् विगतशताब्दे चतुस्सप्ततिवर्षे जूनत्रिंशत् दिनात् संस्कृतवार्ता अनवरतं प्रचलति महाराष्ट्रम महाराष्ट्रस्य ठाणे आरक्षिभि गतदिने जनपद न्यायालये पलायितकं दाउद इब्राहिमं तस्य भ्रातरौ इकबाल कास्करम् अनीस इब्राहिमं च विरुध्य आरोपपत्रं प्रस्तुतमस्ति अवधेयमस्ति यत् विगतवर्षे एतान विरुध्य भवननिर्मात् बलात् धनसंग्रहाणारूपे प्राथमिकी पञ्जीकारिता आसीत राष्ट्रपतिः डॉनल्ड ट्रम्प विश्वव्यापार संघटनात् अमेरिकाया निष्क्रमणं निराकृतवान् यद्यपि ट्रम्पेण अमेरिकया सह संघटनस्य अनुचितव्यवहारः समारोपित अपरत्र कनाडा दर् अमरिकाया लौह एल्मीनियम चिति पदार्थयो सीमाश्ल्कवृद्धिं विरुध्य अमरिकात आयात अर्ब्द डॉलरमितं श्ल्कोद्वोषणा विहिता अद्यारभ्य फिफा विश्व चषकपादकन्द्रक स्पर्धायां प्रप्राग्पान्त्यचक्रीया स्पर्धा प्रारप्स्यता सार्धसप्तवादनात् फ्रांस अर्जेण्टीना दलयोर्मित भविष्यति द्वितीया स्पर्धा च रात्रौ सार्धैकादश वादनात् पूर्तगाल उरुगवे दलयोर्मिथ भविष्यति भारतेन वैश्विकार्थिक कार्यबलस्य पाकिस्तानं विरुध्य स्वीकृतो निर्णय समादृत जम्मूकश्मीरस्य आरक्षिमहानिदेशकेन आतंकवादिनां कुट्म्बिन अध्यर्थिता यत् ते निजबालकान् हिंसाचरणमपहाय गृहं प्रत्यागन्तुं निर्दिशन्त् वर्ता